श्रीगुरुभ्यो नमः हरिः ॐ श्रीमहागणाधिपतये नमः सदाशिवसमारम्भां व्यासशङ्करमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं व्यासं तथोजयमुदीरयेत् श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पादशङ्करं लोकशङ्करम् शङ्करं शङ्कराचार्यम् केशवं कृतौ भगवन्तौ पुनः पुनः यहा वारितो अज्जा आदिपट्ल नारायणदाग्रगण्युरु प्रे प्राक्तजन्मविद्याः जन्मान्तरमुनन्दरि सकलविद्य अप्रयत्नङ्ग आ जन्म वरिचायि श्रीमद् अज्जाडव सङ्गीत साहित्य कला सुधासागरु शास्त्रसार पारावा परिणुलु सकल कलाप्रपूर्णुरं वेल पद्नागुः आभयव जयन्ति उत्सवकटुना वारि काशीयात्र शतजयन्ती कुडी संवत्सरमेव अवटं समुचित उ आदिपारायणदासुगार अनगे एवरिकैना वने स्फुरिचे विषयं हरिकथ महापुरुषुडु कारणजन्मुडै देनि कोसम् अवतरिचाडो श्री नारायणदासवर्युवल्ल हरिकथा प्रक्रिय प्रजलक सन्निहितमै नवविध भक्तिमर्गल समाहारमयन् अद्वैतानुभूतिकी सोदाहरणमय अमाश्रयमैन् रसहृदय गुण्डल् तत् दरि चुट्टमयो भुक्तिमुक्तिदायकमयि भक्तजन् हृदया सप्तस्वरामर्गान् सुगमं चेन् हरिकथाेपूनि दूरं चेत् रागताळालो रागद्वेषाम् दूरं चेत् रसमयमसानुभूतु कुर्वन्ति सङ्गीतसाहित्य सम्मेलनग सरस्वती देविनि प्रत्यक्षं चेत् हरिहरुणि सेवचा हरिकथा मर्गानि हिरण्मय विराजितम् श्री दासुगारि हरिकथ जनसामान्याके काक पण्डित प्रकाण्डुल अमितम आनन्दान्निचेदि वारि हरिकथली भगवत्सम्बन्धा भक्ति वैराग्य नीतिबोधकालु अष्टादश विद्या रहस्यल्नि बाग आकलिकस्त्रपारु सकल कलाप्रियभालै हरिकथा प्रक्रिय सान्द्र कलाकेन्द्रं नवरसार निलय कीर्चिदिन हरिकथा शिल्पसाम्राट्टु श्री आदिभट्ल हरिकथलो धीटुगा आयन शतकसृष्टिकूडेशु श्री दासुगारि अद्भुत रचन श्रीरामचन्द्र शतकम् ई शतकं आ महामहुनि पाण्डिति प्रकर्ष वेदान्त विज्ञानं परिस्फुटङ्गोचरिस्ति श्रीरामचन्द्र शतकं भाष उदात्तम् भावं गाम्भीर्यं विषयं अद्वैतम् सकल वेदान्त समन्वय संपुटि शतकं अद्वैतसारं श्रीरामचन्द्रुडि परब्रह्मतत्त्वा सहजसुन्दरं सम्पुटीकरणं चे मन्त्रपूतं चेशी श्रीरामचन्द्र मकुटकृतम् आदिकवि वाल्मीकि महर्षिविरचिता सम्पूर्ण रामायण कथा हृदयानि आदिभट्लु रामचन्द्र शतकं निक्षिप्तं चेश आदिकवि रामायणमेव आदिभट्ल रामचन्द्रशतकं आदिभट्ल रामचन्द्र शतकं अवतरं दाल्चिन् श्रीमद् अज्जा आदिभट्ल नारायणदास्कृत रामचन्द्र शतकानि सरलम विवरं प्रयत्नी श्रीराम्भट्लक्ष्मीनरायण शास्त्रिगारु शतधा सफलीकृतुलैनूड अज्जाडवारे रचिन अनुभूतिनि कार्य सहृदयः प्रमाणं रामचन्द्रशतकं सर्वं कलिविदं ब्रह्म सदैव सोम्येदमग्र आसीत् साक्षि चेत केवलो निर्गुणश्च इति उपनिषद्वाक्य समन्वयं जिन् शङ्करभगवत्पाद वार सूत्रीकरिचन मोक्षसाधनसामग्र्यां भक्तिरेव गरियसि अद्वैतसिद्धिक भक्तिमर्गमेव सर्वात्तमं अनदे श्रीदासुगारि तात्पर्यं श्रीमद् अज्जाड आदिपट्ल नारायणदास विरचिता रामचन्द्र शतकानि श्रद्धाभक्तु श्रवणं चेद् रामचन्द्र शतकानि मीक विनिपञ्चे अदृष्टानि नोचुक वेंकट डाक्टर चंद्र सीता श्रीमदज्जाभट्लनारायणदासकृत श्रीरामचन्द्रशतकं समस्तामरप्रात्र प्रमत्तासुरप्राणवल्लीलवित्र दयासान्द्र राजेन्द्रसीताकलत्रभो रामचन्द्र राम, दुरात्माहमत्यन्तमूढोऽतिदीनम् त्वमार्तावनः पावनः सर्ववेत्ता न हि त्वां विना विद्यते मे शरण्यः प्रसीद प्रसीद प्रभो रामचन्द्र अहं दुःखपूर्तिस्त्वमानन्दमूर्तिस्सदाहं प्रमुग्धा स्वयं त्वं विदग्धः ुष्प्रचारस्त्वमं हो विदूरः प्रसीदप्रसीदप्रभो रामचन्द्रभो रामचन्द्र बलं रोदनं बालकानामिति त्वम् विदन्मां समाश्वासयातीव मूढम् विजानासिमेतप्तचेतस्त्वमेव प्रसीद प्रसीद प्रभो रामचन्द्र विपन्नोऽहमत्यन्तसंसारखिन्नस्त्वदन्यो न मां कोऽपि क्षमित्वा क्षमित्वापराधान् मदीयाननेकान् प्रसीद प्रसीद प्रभो रामचन्द्र असन्तुष्टमत्यन्तलोलम् प्रकृत्या मनोमेवशं भ्राम्यति क्लेशमूलम् भवन्नामसङ्कीर्तने तन्नियम्य प्रमोदम् सदा देहि मे रामचन्द्र क्वचिद्रागविद्वेषसन्तापयुक्तम् क्वचिद्यूतपानाङ्गनभोगसक्तम् क्वचिद्देहमात्सर्यगर्वानुरक्तम् गर्वानुरक्तं इदं मनो रामचंद्र प्रमत्तारिषड्वर्गनिघ्नम् कृतघ्नम् प्रभूतावलेपं तदनेकपापम् वृथा जीवितं यापयन्तं नितान्तं दयाम्भोनिधे पाहि मां रामचन्द्र अहं सर्वदा न्याङ्गनासक्तदृष्टिः नमे मे विद्यतेऽर्धार्जने कापि तुष्टिः ममातीव सद्वञ्चनायां प्रहृष्टिः खलु मत्समः प्रभो रामचन्द्र खसिमेव किञ्चिज्ज्ञता वञ्चते माम् जरावित्त सर्वेन्द्रियाणि विशन्ति नमे मे नश्वरं वस्तु प्राग्वसीद प्रसीदप्रभो रामचन्द्र मदीयङ्गसामच्यसम्पद्विनष्टाधुना केवलव्यधतृष्णावसिष्ठत्पादसेवामृतम् पायित्वा चिरञ्जीवयन् पाहि मां सदाध्यासतोहं सदा ध्यासतोऽहं ममेतीदृशम् संसरन्नाप्नुवम् नित्यविश्रान्तिसौख्यम् विना त्वद्दया मज्जतेषा नश्येत् प्रसीदप्रसीदप्रभो रामचन्द्र समारब्धवार्धक्यदौर्बल्ययोगा अलभ्यार्धभोगात्तीव्रानुरागात् विधिप्रातिकूल्याद्भृशं पीड्यमानम् कृपा वारिधे पाहि मां रामचन्द्र निदिध्यासितव्योऽयमात्मेति वाक्यम् दृढं विश्वसन्मत्यमान्यानवेक्ष्य भजे त्वां शरण्यं त्रिलोकैकनाथं प्रसीदप्रसीदप्रभो रामचन्द्र प्रसीद प्रसीदप्रभो रामचन्द्र नभो नैल्यवद्रूपवच्छुप्तिकायाम् त्वदीयं असंगो भवान भवान्सच्चिदानन्दमूर्तिस्त्वया पालनीया वयं रामचन्द्र सदाहं विमूढोऽपि सर्वज्ञमानी दुरात्मापि निष्कल्मषम्मन्य एव चित्तोऽप्यतीव स्वतन्त्रो अस्म्यलजो बलोपि प्रभो रामचन्द्र सदाहम् विमूढोऽपि सर्वज्ञमानी दुरात्मापि निष्कल्मषंयस्य एव परायत्तचित्तोऽप्यतीव स्वतन्त्रो अस्म्यलजो बलोऽपि प्रभो रामचन्द्र त्वदीयानुकम्पां विनाद्वैत संपन्नकस्यापि पुंसो लभेते ह नूनम् प्रपूर्णापवादेक्षणेनैव बोध्यम् भवत्सत्यतत्वं प्रभो रामचन्द्र अविद्यावकुण्ठो यदोत्क्षिप्यते मे तदहं भवत्येव लीनो भवामि अलं शुष्कवेदान्तशास्त्रप्रलापयेत् वयं किञ्जरास्त्वं प्रभो रामचन्द्र असत्येन्द्रियग्राह्यवेदान्तवाचः प्रमाणम् मनोतीतसद्वस्तु न स्यात् अलं बाह्यजिज्ञासयाकाशदृष्ट्या अद्य मां रक्ष सीतापते रामचंद्र। यथा भाव्यते यत्तथा भूयते तत् मनोमूलमेव अखिलं विश्वमेतत् तद्वशस्तत स्तद्वशम् ते भ्रमन्त वयः कान्त भवेत भवेद् रामचन्द्र भवेच्चेद्यतो वक्ररेखानयोगस्ततो भिन्न वेदन्त वाक्यान्वयः स्यात् वृथैवोद्यमः पौरुषे ै त्वदिच्छाविरुद्धः प्रभो रामचन्द्र समस्तम् ऋषिप्रोक्तमत्यन्तमाप्त प्रमाणीकृतम् सर्वलोकोपकारी तथापि त्वदीयङ्घ्रिभक्तिप्रदानम् वचश्रद्धधामि प्रभो यथा वेदवाचो वृथार्थानभिज्ञे तथा शास्त्रचर्चाभक्तिहीने भवद्भक्तिचिह्नम् दया सत्यवाक्यम् भवन्नामसङ्कीर्तनम् रामचन्द्र कदाप्यस्य शास्त्रीयवादस्य नाम् तु विचारोऽपि विश्वासविध्वंसकारी त्वमेवाहमित्युक्तिरन्यायमूला भवद्भक्तिरेव नघ रामचन्द्र यथार्थम् भवत्येव नः विश्वमस्मासु यावत् स्पृहास्ति ततो यो वसिष्ठः प्रबोधस्वरूपः प्रभो, प्रभो रामचन्द्र सुखे स्यात्कृतस्यात्प्रयत्नः प्रजानाम् त्वदीयानुकम्पाम् विनानर्थकारी भवान् यन्त्यहं यन्त्र प्रसीद प्रसीद प्रभो रामचन्द्र निरूढ्या यथास्मीत्यहम् निश्चिनोमि स्वयम् त्वामपि ज्ञानमूलम् तथैव विना कारणम् जायतेनैव कार्यम् स हेतुस्त्वमद्यः प्रभो रामचन्द्रमस्वप्नदृष्ट्यान्ततो जाग्रतापि प्रहृष्टम् जगद्वां तव नेति मन्ये सुषुप्तिस्थिताज्ञातवस्त्वेव सज्जम् भवांस्तत्स्वरूपः प्रभो रामचन्द्र हृदन्तर्गतज्योतिरेकत्र बीजम् त्वमेवासि सर्वत्र कार्यप्रपञ्चः अतस्त्वम् गुणे निर्गुणोऽपि द्विधासि बोधरूपः प्रभो रामचन्द्र तरङ्गोऽस्ति वार्धो न वार्धिस्तरङ्गे तथा विश्वमस्ति त्वयि न विश्वे त्वमेव प्रमाणप्रमेयस्वरूपः कथं विद्महे प्रभो रामचन्द्र अलं शुष्कतर्केण शङ्कान् पदेन मुना वेदवाञित् दूषकेन सुशीलौ रतध्यानभक्तिद्विषातः परं त्वाम् भजेऽहम् प्रभो रामचन्द्र महीजाधरोष्टप्रवालिकल्प पुरद्विधनुः काननेऽग्नि सकृत्कौशिकाङ्घ्रिस्थिताम्भोजतुल्या चकास्ति स्म ते दृक्प्रभो रामचन्द्र क्वचिज्जानकीगण्डपाळिं लगन्तं क्वचित् वायुपुत्रोत्तमाङ्गं स्पृशन्तम् क्वचिद् दैत्यविध्वंसकास्त्रं क्षिपन्तं करं ते स्मरामि प्रभो रामचन्द्र सदा भक्तकल्हारसम्पूर्णचन्द्रम् विमत्तासुरध्वान्तचण्डार्कबिम्बम् मुहुर्भावये वेदनिःश्वासयुक्तं त्वदीयं स्मितास्यं प्रभो रामचन्द्र अहम्नास्ति यावन्न शक्नोमि भवन्तम् समालोकितुम् वस्तुतोहं। भवद्दर्शनेन प्रणश्ये दहन्ते क्षयेयम् कथम् त्वाम् प्रभो रामचन्द्र नभःखण्डशो नभःखण्डलोमुद्गरिणेव भेद्तुम् पदार्थस्थितिम् तर्कतो वेत्तुमिहे अलम् तत्त्वजिज्ञासया शून्यदृष्ट्या भवद्भक्तिरेवास्तु मे रामचन्द्र तदास्यात्मकर्मानुसारम् फलानि प्रकृत्यैव कर्तव्यताम् पक्षिजन्तूम् त्वमाक्रीडसे विश्वरूपेण चेतस्तटस्त्वद्वयोऽपि प्रभो रामचन्द्र स्मरेयम् यदि त्वाम् जगद्रक्षणार्थम् मुहुर्घोरकष्टान् बहून्सह्यमानम् न किम् सन्तपेन्मानसम् भवन्निर्गुणः केवलः साक्षिचेतास्तदन्यः पदार्धो न इति प्रत्यहम् बुध्यमानोऽपि दुःखाम्यहम् किम् करोमि प्रभो रामचन्द्र ग्रहाणाम् गतिः कालकर्मस्वभाव स्थितिः सम्यगालोचनापूर्विकैव भवत्कर्तृकम् वास्तवम् विश्वमेतत् वयम् रक्षणीयाः प्रभो अनित्यत्वमिथ्या त्वयोरर्थ भवे निर्गुणत्वस्वतन्त्रत्वयोश्च त्वयि भ्राम्यमाणम् प्रधानम् यथेष्टम् नियच्छस्य सङ्गः प्रभो रामचन्द्र अहं नोपकर्तुं समर्थोपकर्तुम् स्वयं जीवितुं वा विना तावकेच्छलवङ्गं यथा न श्रेयस्याश्रितम् माम् किमर्थम् दयाम्भो रामचन्द्र न जानेहमस्थूलदेहस्य तत्त्वम् कथम् ज्ञायतेति इन्द्रयात्मस्वरूपम् वृथा ज्ञानवैराग्यसम्पद् बुभुक्षा भजे श्रेयसे त्वां प्रभोः रामचन्द्रमनस्वप्नजाग्रत्सुषुप्तिक्रमेणेत्यवस्थात्रयम् साक्षिणि चैयजस्रम् अयः सत्सत्स्वभावम् त्वदा, त्वदायत्तमेतत्प्रभो रामचन्द्र समारब्धसौख्यावभासाक्रमेण अन्ततो वर्धमानादिदुर्धर्षशोक इयम् संस्कृतिर्भ्रान्तिमूलास्त्वतन्त्र दयाम्भोनिधे दयाम्भोनिधे पाहि मा रामचन्द्र फलं हस्तयोस्तावकीनाङ्घ्रिपूजा फलं नेत्रयोस्त्वच्छुभाकारवीक्ष फलं जन्मनस्त्वत्पदम्बोजभक्तिः कृपासान्द्रीतापते गुणाद्भिद्यते नो गुणे दृश्यतो तथा विश्वतोऽहं न भिन्नः कदापि अनावश्यकक्लेशदोऽयम् विचारः सुगं ते कथाकर्णनं रामचंद्र। नयाचे याचे अमनस्कस्थितिं नैव मस्करित्वं। न वा बन्धुलोकाप्रियम् मस्करित्वम् न राज्याधिपत्यं न सम्भोगसौख्यम् भवद्दर्शनम् तनुस्पर्शमात्राङ्गनाभूतग्रामम् मरन्दीकृताकाशगङ्गम् त्वदीयम् पदाब्जम् दितृक्षामहे रामचन्द्रबहुश्यामिति प्रेक्षणेनैव विश्वम् विनिर्माय मायामयम् त्वय्यनन्तम् सदा क्रीडसे निर्गुणोऽपि स्वभावादतिञ्च प्रभाव प्रभो रामचन्द्र मुहुर्वेदशास्त्रप्रभेदानशेषान् मदीयानुभूतिम् समन्ताद्विचार्य दृढम् निश्चिनोमि प्रमाणम् प्रमेयम् प्रमाता त्वमेवेत्यहम् रामचन्द्र जडं पञ्चभूतात्मकम् त्रिप्रकारैर्गुणैस्तत्त्वशम् भ्राम्यति त्वयि यजस्रम् समर्थस्त्वमेतजेष्टम् नियन्तुम् तटस्थोऽपि सीतापते रामचन्द्र यदेवेह सिद्धान्तितम् वस्तु नानाप्रकारैर्म तदेवासि बुद्धिप्रवृत्तेर्निदानम् प्रबोधस्वरूपप्रभो रामचन्द्र मदन्यः पदार्धो न कोऽप्यस्थिविश्वम् वृषेति प्रगल्भेतयो द्वैतवादी प्रमाणाधिकम् तस्य दुःखम् विपत्तौ भवेन्मादृशस्य प्रभो रामचंद्र। मदीयात् सुषुप्तिः परोक्षैवमेहम् स्वतन्त्रो न स्वप्न जाग्रद्दशासु यथेष्टम् विहर्तुम् ममातीवञ्च कथम् तोषयेर्माम् प्रभो रामचन्द्र प्रमादान्वितम् सर्वमर्चायुरेतत् परायत्तमत्यन्तविभ्रान्तिमूलम् ममेदम् स्थिरं निर्भयम् नित्यतृप्तम् त्रियेधा जगत्तोषकम् रामचन्द्र अजात्वद्वशासत्सदङ्गा गुणत्र युपेतास्ति माया त्वयि भ्राम्यमाणा यथेष्टम् नरी नर्तयं सन्ततं क्रीडसे प्रभो रामचन्द्र तुलायां समं दुर्दुरां स्तोलयेच्चेत् समन्वेतुकामश्रुतिर्ब्रह्मणि स्यात् कथं वेदितव्यः स यः ्यलम् सर्ववेत्ताप्यलं व्यर्थजिज्ञासया रामचन्द्रमःवादेन सोऽद्वैतवादस्ततः किं वरिष्ठो न चार्वाकवादः महाराजमार्गो भवद्भक्तिरेवास्तु लोकोपकारक्षमा रामचन्द्र अहिंसाव्रतः सत्यवाग्दीनबन्धुः परस्त्री परद्रव्यकाङ्क्षो विहीनः स्ववर्णोचिताचारवान्दानशौण्डः प्रियन्ते स एव प्रभो रामचन्द्र स एवास्तिकश्रोत्रियन् सन्मुनीन्द्रः स एवानगः पावन सर्ववेत्ता भवन्नाम सङ्कीर्तनं यः प्रजां रञ्जयन् प्रत्यहम् रामचन्द्र त्यजन्यस्वसौख्यम् भरन् कष्टजालम् करोतीह लोकोपकारम् गृहस्थः यतेन्द्रः स एवाकिलञ्ज्ञः एव प्रियस्ते स प्रभो रामचन्द्र त्वयि व्यापृते व्योम्नि चेतस्य नन्ते नमस्तेन्द्रियग्राह्य विश्वस्वरूपेहमः अहम् सन्नपित्वाम् न सन्दर्शयामीति मन्येऽहमाहो भ्रमो रामचन्द्र दशाश्वो दशप्राणयुक्तः शरीरी विदेहात्मजारूपविद्यापहारीमाब्धिम् समुल्लङ्घ्य ब्रह्मास्त्रन्तम् ब्रह्मास्त्रतस्तम् विजिप्त्यापतां त्वम् पुनारामचन्द्र प्रवासोद्य जानकी विप्रलंभो, मुखे रावण प्राणसंहारेमदि मनागप्यवापी कथम न प्रभो रामचंद्र पृथिवजो मुखा निवृत्ति क्रमान्योन्यसंश्लेषविश्लेषकर्म कथम् कुर्युरेवम् विनाधारभूता अकाशस्फुरच्चेतस रामचन्द्र वियन्नास्ति चेत्क्ष्माम्बुतेजोऽनिलानाम् मिथः सङ्गमः कुत्र विश्लेषणम् स्यात् नृषैव सतः सज्जनीर्नास्तिकानाम् प्रभो रामचन्द्र त्वयि स्वप्नवद्योम्नि मिथ्या प्रपञ्चम् भ्रमेणैव विकुर्वे भवन्नाममात्रप्रभावेण मोहग्रहम् नाशयामि प्रभो रामचन्द्र घटान्तद्बहिः पूर्णघम् भिद्यते किम् विभिन्ने घटेङ्गे विनष्टे तदात्मा सदात्मा शरीरद्युते सदात्मा शरीरज्युचेतोऽभिधानयैस्त्वमेवागमयि कथ्यसे रामचंद्र प्रवृत्या जगद्वत् निवृत्या न भोवद्विधात्मानमेवेक्षसे त्वम् प्रकृत्या भवान् बन्धवन्मुक् ल्लीलयास्ति यचिन्त्य प्रभाव प्रभो रामचन्द्रमः स्वप्नदृष्ट्यान्ततो व्यासमौनेर्मतम् सत्यमद्वैतमेवेति मन्ये तथापि त्वदीयङ्ग्रिभक्तिरुचिर्मे यथा जानकीते प्रभो रामचंद्र जिह्मावदे भवद्भ्यातिमेव शृणोतु श्रवो मे भवद्दिव्यपादारविन्दद्वयम् मे मनश्चिन्तयेत्सन्त रामचन्द्र ममः स्वप्नजाग्रत्सुषुप्तित्र्यवस्थाचेस्ततो मोचयित्वा त्वदीयानुकम्पौषधम् पाययित्वा कुरुलाघमद्यप्रभो रामचन्द्र ये वेक्षते त्वत्पदम् व्योममात्रम् मृषैवेति दृश्यम् सदा मन्यमानः स एवेह मृत्युञ्जयः सर्वसाक्षी भवत्पादभक्तिः प्रभो रामचन्द्र त्वमाकाशवन्निर्विकारोऽपि विश्वं सृज संहारन्मात्मनि क्रीडसिद्धम् त्वदिच्छावशौ प्राणिनां बन्धमोक्षौ प्रसीद प्रसीद प्रभो रामचन्द्र प्रसीद प्रसीदप्रभो रामचन्द्र अलं निष्फलारम्भः पञ्चाङ्गवाक्यैर्विनानुग्रहं तेन सुखे शरीरी सुखं त्वत्पदम्भोजभक्तिर्दृढैव प्रसीदप्रसीदप्रभो रामचन्द्र अविद्यात्मिकाशभूतात्मदर्शि प्रतिच्छन्दितात्मानमेवान्यधेक्ष्य अहम् द्वैतबुद्धे द्विषा संसरामि प्रसीद प्रसीद प्रभो रामचन्द्र गुणो नास्ति कश्चिद्विना नाम ्यां कृता वन्यशब्दा वृथा क्लेशमूलाः भवद्भक्तिसम्बोधकं यत्तदेवोत्तमं काव्यरत्नं प्रभो रामचन्द्र महाघोरसंसारकारानुबद्धम् सदा रागविद्वेषपाशावरुद्धम् अमोघान्धक्रूरदण्डापविद्धम् दयाम्भोनिधे पाहि पाहिमां। रामचन्द्र भवत्पादसन्दर्शनाभावहेतोः समाक्रन्दितुम् समाक्रन्दितुम् समर्थः समा नमर्थः ममाश्लुप्रवाहे नमर्थः ममाश्रुप्रवाहे जगत्किम् मज्जे द्वियत्किम् न भिद्येद्रवै रामचन्द्र न चेद्भूतपूर्वं तावकीनं ममेप्सोः प्रवृत्तिर्भवेत् किन्नु तस्मै अलं संशयेन त्वमार्त्रैकरक्षाव्रत सर्वतोसि प्रभो रामचन्द्र दयासागरं पुल्लराजीवनेत्रम् दयासागरम् भक्तरक्षैकलोलम् त्रिलोकीश्वरम् जानकीप्राणमित्रम् भजे श्यामलम् त्वाम् प्रभो रामचन्द्र जडं व्योममात्रं मृषा व्योमपुष्पम् यथा चेतनादन्यवस्त्वनास्ति वृथासम्भवान् मृत्युतः किं विभेमि भ्रमम् नाशयामु प्रभो रामचन्द्र मदीयापराधान् क्षमस्वेति माम् प्रार्थये चेदहम् रावणम् जीवयेयम् इति प्राकरस्त्वम् प्रतिज्ञाम् सखाय महो धर्मवीरप्रभो रामचन्द्र भवन्नाममन्त्रप्रभावम् स्वयम् नैश्वरो बुध्यते का कदा प्रकृतानाम् नमस्ते भवद्भवन्तचण्डारुणाय सिताभीष्टदाय प्रभो रामचन्द्र भवानग्रतः पृष्ठतः पार्श्वतस्तु स्थितः सर्वदान्तर्बहिस्त्राय तां माम् महात्मन् जगन्नाथ सीतापते रामचंद्र पवित्रेति मत्वापि सीताम् विहाय प्रवादम् विधूय प्रजाम् त्वषयित्वा स्वसौख्यं च जन्धर्ममेवाभ्यरक्षिस्त्वदन्यो न प्रभो रामचन्द्र अहं शोषयिष्यामि मत्ताम्भुरासिं धनुर्लक्ष्मणेत्यालपन्नेश्वरत्वम् तथा सुशुचः पद्मपत्रायतापाङ्गतो निर्विकारोऽप्यहो रामचन्द्र यतो जायते यत्ततो लीयते तत् यथा मानसव्योमतः स्वप्नविश्वम् मृषैतज्जगद्भ्रान्तिजन्यम् समस्तम् भवानेव सत्यम् प्रभो रामचंद्र अहम् शेखरस्त्वम् समुद्रः करोऽहम् त्वमर्कोऽस्य हं रेणुरुद्रीश्वरस्त्वम् अहं नश्वरः शाश्वतस्त्वम् वृषाहम् यदार्धस्त्वमेव प्रभो रामचन्द्र अशेषैरसैरेष लोको भयम् स्वाम् त्वयिद्राग्निलीयते लीयेत गायन् प्रनृत्यन् समस्तैहिकं कर्मते कर्म ते भक्तिरूपम् त्वदन्यन्नवस्तु प्रभो रामचन्द्र तवालम् जगत्सृष्टिसंहारकेल्या मम प्राणिनोतीव विभ्रान्तिकर्त्र्या वृथा सुशुचो माम् त्वदीयाङ्भक्तम् प्रसीद भो रामचन्द्र भवद्यसन्दर्शनं मे प्रदायाश्वविद्याम् अदीयाम् समुन्मूलयिनाम् अतिक्लेशतो जीवितम् यापयन्तम् दयाम्भोनिधे दयाम्भोनिधे पाहि मा यदि ममत्वत् त्वत्पदध्यानमेव स्वतः किम् नश्चेत् जगद्भ्रान्तिरेष निरोद्धुम् न शक्यम् मनश्चञ्चलम् मे वधानत्वमेव प्रभो रामचन्द्र त्वमात्मा गुणः सर्वदाप्येकमेव त्वयिदं नभो नैल्यवद्विश्वमस्ति यतो नावकाशोऽति भिन्नानुयुक्तेस्ततो नैव भवेन्नाश्रयश्चाश्रितोऽप्येकवस्तुस्त्वयम् भिन्नवस्तूनि नैके भवन्ति अतः स्वप्नवद्विश्वमेतन्न सत्यम् विना त्वत्स्वरूपम् वियत्रामचन्द्र अविद्या हतस्त्वयनन्ते विभुम्नीक्षते साक्षिणि प्रपंचं। मिद्या प्रपञ्चम् त्वदीयङ्घ्रिचिन्तामृतास्वाद मत्तस्त्वदन्यन्न पश्यत्यहो रामचन्द्र झुटित्ये हि ते दिव्यसन्दर्शनं मेथुना देहि मन्मोहजाड्यं धुनिः मदीयोत्तमाङ्गे कराब्जं निधेहि प्रभो पाहि मां पाहि मां रामचन्द्र नमः क्रूरक्षस्तमो भास्कराय नमस्ते नमस्ते दयावाहिनिन्द्र प्रसीदप्रसीद प्रभो रामचन्द्र अविद्योत्तरम् द्योत्यमानः प्रबोधो विशेष्येत्सताम् नाशयित्वा विनाशी अविद्या तमोवत् मृषैवेति भाष्यम् भृशम् युक्तियुक्तम् प्रभो रामचंद्र भवत रामचन्द्र भवद्भक्तिसूत्राणि सौण्डिल्यमौनिः हितायैव संप्रोक्तवान् मानुषाणां मतं तस्य लोकोत्तरम् विश्वसंस्थाम् भजेऽहं शरण्यम् प्रभो रामचन्द्र त्वमेवाखिलं विश्वमेतत्तवानुग्रहादद्य विज्ञायते वस्तुतत्त्वम् विपर्याय सन्देहविभ्रान्तिमोहा विनश्यन्ति सीतापते रामचन्द्र पितृभ्यो यथा जायते मत् शरीरस्तथा मत्प्रबोधोऽभ्युदेति त्वदेव न कोऽपि त्वदन्योऽस्ति तत्त्वोपदेष्ठ गुरूणाम् गुरुस्त्वम् प्रभो रामचन्द्र अभावोऽपि सूर्य य सूर्यवत्ताकिपंडित मनो मादशनीय प्रभो रामचंद्र गजं यथाध गज्ञास्त्रिणस्ता पौरुषेय तथ्वा विदुषेय प्रमाण अवांमानस्यत्मक प्रभो रामचंद्र नमस्ते जगत्साक्षिणे विश्वकर्त नमसूतात्मने पापहर्त्रे। नमस्ते भवाम्भोन्तार न्द्रभो रामचन्द्र श्रीमदज्जाड आदिपट्लनारायणदासकृत रामचन्द्रशतकम् विनिपनालि वास्तव्युरु ब्रह्मश्री गोलिवेङ्कटसुब्बावधानिगारिकुमारु आञ्जनेयु ॐ शान्तिः शान्तिः शान्तिः मङ्गळं कोसलेन्द्राय महनीय गुणात्मने चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॐ शान्तिः शान्तिः शान्तिः